हरि ओम् श्रीजगदम्बिकायै नमः अथ देवी श्रीमद्देवीभागवत महापुराणे प्रथमस्कन्धे अष्टमोऽध्यायः ऋषे वोचो सन्देहोत्र महाभागकथायां तु महाद्भुत वेदशास्त्रपुराणश्च निश्चितं तु सदा बुधै ब्रह्मा विष्णु च रुद्र च त्रयोदेवासनातनः न परतरं किञ्चित् ब्रह्माण्डेऽस्मिन् महामते ब्रह्मा सृजति लोकान्वये विष्णुपात्यखिलं जगत् रुद्रसंहर्ते काले त्रय एतेऽत्र कारणम् एकामूर्ति श्रियो देव ब्रह्मविष्णु महेश्वरः रजसप्तमोऽभिश्च संयुता कार्यकारकः मध्ये हरे माधवे माधव पुरुषोत्तम आदिदेव जगन्नाथ समर्थ सर्व सर्वर्मसु न कौपस्ट विष्णुअत स कथम स्वाथ स्वामी विवशो योगमाय गीवत हथय स्व यहाशुभ का सा शक्तिपुरा यया विष्णुर्जितप्रभो कुतो जाता कथं शक्ता का शक्तिर्वद सुव्रत यस्तु सर्वेश्वरो विष्णु वासुदेवो जगद्गुरुः परमात्मा परानन्द सच्चिदानन्दविग्रह सर्वकृत् सर्वभृत्स्रष्टा विरज सर्वगः शुचि स कथं निद्रया नितः परतन्त्र परात्पर एतदाश्चर्यभूतो हि सन्देहो नः परन्तपन्धि ज्ञानासि न सूत व्यासशिष्य महामते सूतवाच, उवाच कस्सन्देहम् भिनत्येन त्रैलोक्ये स्वचराचरे मुह्यन्ति मुनिह्य कामम् ब्रह्मपुत्रा सनातनः कपिलश्चैव प्रश्नेस्मिन् मुनिसत्तमः किं ब्रवीमि महाभाग दुर्घटेऽस्मिन् विमर्शने देवेषु विष्णुकथितः सर्वपारकः यतो विराडिदम् सर्वम् उत्पन्नम् सचराचरं ते सर्वे सुमुपासन्ते नत्वा देवम् परात्मनम् नारायणम् ऋषि केशम् जनार्दनं जनार्दनम् तथा केचिन् महादेवम् शङ्करम् शशिशेखरम् त्रिनेत्रम् पञ्चवक्त्रं च शूलपाणिं वृषध्वजम् तथा वेदेषु सर्वेषु गीतं नाम्ना त्र्यम्बकम् कपर्जनम् पञ्चवक्त्रम् गौरी देहार्धारिणम् कैलासवासनिरतं सर्वशक्ति समन्वितम् भूतवृन्दयुतं देवं दक्षयज्ञविघातकम् तथा सूर्यं वेदविदः सायं प्रातदिने दिने, दिने। मध्याह्ने तु महाभागा स्तुवन्त्यै विविधैस्तवै तथा वेदेषु सर्वेषु सूर्योपासनमुत्तमम् परमात्मापि परमात्मा इति विख्यातम् नाम तस्य महात्मनः अग्नि सर्वत्र वेदेषु संस्थितो वेदवित्तमये इन्द्रश्चापि त्रिलोकेषु वरुणश्च तथा परः यथा गङ्गाप्रवाहैश्च बहुभिः परिवर्तते तथैव सर्वदेवेषु विष्णु प्रोक्तो महर्षिभिः त्रीण्येव हि प्रमाणानि पठितानि सुपण्डितैः प्रत्यक्षम् चानुमानम् च शाब्दं चैव तृतीयकम् चत्वारि वेतरे प्राहुपमानयुतानि च अर्थापत्तियुतान्ये पञ्च प्राहुर्महाधिय सप्तपौराणिकाश्चैव प्रवदन्ति मनीषिणः एते प्रमाणे दुर्नेयं यद्ब्रह्म परमं च तत् वितर्कश्चात्र कर्तव्यो बुद्ध्या चैवागमेन च निश्चयात्मिकया युक्त्या विचार्य च पुनः पुनः विज्ञानं चिन्त्यं महती मता सदा दृष्टान्तेनापि सततं शिष्टमार्गानुसारिणा विद्वांसो प्रिवधन्त्येवम् पुराणै परिगीयते द्रोहिणे सृष्टिशक्ते च हरपालनशक्तिता हरिसंहारशक्ति च सूर्यशक्तिप्रकाशिका धराधरणशक्ति च शेषे कुर्मे तथैव च सद्याशक्तिपरिणता सर्वस्मिन्या प्रतिष्ठिता दाः शक्ति तथा वह्नौ समेते प्रेरणात्मिका शिवताम या कुंडलि विवर्जिशक्तिन सुचिद असमर्थ स्मृत बुधे एवं सर्वतेषु शु स्थावरेशुचरषु ब्रमाद स्तंब पर्यतम ब्रह्मास्म महात शक्तिनम्य वस्तुमात्र चराचर अशक्त चतुर्जय गमने भोजने तथा एवं सर्वगता शक्ति सा ब्रह्मेति विविच्यते स्वपास्या विविधे सम्यक विचार्या सुधिया सदा विष्णो च शक्ति तया हीनोऽप्यकर्मकृत् गृहिणे राजसे शक्ति यया हीनो य असृष्टिकृत् शिवे च तामसे शक्ति तया संहारकारकः इत्योऽयं मनसा सर्वम् विचार्य च पुनः पुनः शक्तीकरोति करोति सा सावै पालयते अखिलम् इच्छया संहरत्येषा जगदेतचराचरम् न विष्णुर्न हरशक्तो न ब्रह्मा न च पावकः न सूर्यो वरुणशक्त स्वे स्वे कार्ये कथञ्चन का तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः सैव कारणकार्येषु प्रत्यक्षेणावगम्यते स गुणा निर्गुणा स तु द्विधा प्रोक्ता मनीषिभिः स गुणा रागिभिः सिव्यनिर्गुणा तु विरागिभिः धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला ददाति वाञ्छितान् कामान् पूजिता विधिपूर्वकं न जानन्ति जनामूढा तां सुधा मायया वृतः जानन्तोऽपि परानपि पण्डिता सोदरार्थं वै पाखण्डानि पृथक् पृथक् प्रवर्तयन्ति कलिना प्रेरिता मन्दचेतसः कलौ अस्मिन् भाग नानाभेदसमुत्थिता नान्ययुगे तथा धर्मा वेदबाह्या कथञ्चन विष्णुश्चरत्ति सोग्रम् तपो वर्षाण्यनेकशः ब्रह्माहर श्रेयो देव ध्यायन्त कमपि कामयाना सुधा कामं तेत्रय सर्वदैवी यजन्ति ज्ञानविधान् ब्रह्मविष्णो महेश्वरः ते वैशक्तिं परां देवीं ब्रह्माख्यां परमात्मिकाम् ध्यायन्ति मनसा नित्यं नित्यां मत्वा सनातनीम् तस्माच्छक्ति सदा सेव्या विद्वद्भीकृतनिश्चयै निश्चय सर्वशास्त्राणां ज्ञातव्यो मुनिसत्तमः कृष्णाश्रुतम् मया चैतत्तेन ज्ञातम् तु नाददात् पितुः सकाशात् तेनापि ब्रह्मणा विष्णुवाक्यतः न श्रोतव्यम् न मन्तव्यम् अन्येषाम् वचनम् बुधै शक्तिरेव सदा सेव्या विद्वद्भीकृतनिश्चयै प्रत्यक्षमपि द्रष्टव्यम् अशक्तस्य विचेष्टितम् अतः सर्वेषु भूतेषु ज्ञातव्या शक्तिरेव देवी भागवते महापुराणे अठादशस संहितायां प्रथमस्कंधे आराध्य निर्णय वर्णन श्री अष्टोध्याय श्रीजगदर्पणमस्तु